नारायणीयं दशकं 26 मीटर शालिनी इन्द्रद्युम्नः पाण्ड्यकण्ठादिराजस्त्वद्भक्तात्मा चन्दनाद्रौ कदाचित् त्वत्सेवायां मग्नधीरालुलोके नैवागस्त्यं प्राप्तमातिथ्यकामम् कुम्भोद्भूदिस्सम्भृतक्रोधभारस्तब्धात्मा त्वं हस्तिभूयं भजेति शप्त्वा धैनं प्रत्यगात्सोऽपि लेभे हस्तीन्द्रत्वं त्वत्स्मृदिव्यक्तिधन्यम् दुग्धाम्भो देर्मध्यभाजितृकूडे क्रीडनशैले यूधपोऽयं वशाभिः सर्वाञ्जन्दूनत्यवर्धिष्ठशक्रिया त्वद्भक्तानां कुत्र नोत्कर्षलाभः स्वे नेम्ना दिव्यदेशत्वशक्रिया सोऽयं खेदानप्रजानन् कदाचित् शैलप्रान्ते कर्मतान्तः सरस्यां यूथैः सार्धं त्वत्प्रणुन्नोभिरेमे हू हुस्तावद्देवलस्यापि शापाद्ग्राहीभूतस्तज्जले वर्धमानः जग्राहैनं हस्तिनं पाददेशे शान्त्यर्थं हि श्रान्तितोऽसि स्वकानाम् त्वत्सेवाया वैभवाद्दुर्निरोधं युध्यन्तं तं वत्सराणां सहस्रं प्राप्ते काले त्वत्पदैकाग्र्यसिद्ध्यै नक्राक्रान्तम् अस्ति वर्यं व्यधास्त्वम् आर्तिव्यक्तप्राक्दनज्ञानभक्तिश्युण्डोत्क्षिप्तैः पुण्डरीकैः समर्चन् पूर्वाभ्यस्तं निर्विशेषात्मनिष्ठं स्तोत्रश्रेष्ठं स्वन्वगादीत् परात्मन् श्रुत्वा स्तोत्रं निर्गुणस्थं समस्तं ब्रह्मे शाद्यैर्नाहमित्यप्रयाते सर्वात्मा त्वं भूरि कारुण्य वेगात्तार्क्ष्यारूढप्रेक्षितो भूः पुरस्तात् हस्तीन्द्रं तं हस्तपत्नेन धृत्वा चक्रेण त्वं नक्रवर्यं व्यधारीः गन्धर्वेऽस्मिन्मुक्तशापे स हस्तीत्स्वत्सारूप्यम् प्राप्य दे दीप्यदे स्म यद्वृत्तम् च मां च प्रगेयो गायेत्सोऽयं भूयसे श्रेयसे स्याद इत्युक्त्वैनं तेन सार्धम् गतस्त्वम् धिष्ण्यं विष्णो पाहि वादालयेश सर्वत्र गोविन्दनामसङ्कीर्तनं गोविन्द गोविन्द